सिंहनादस्ज्ञे साधुशब निश्रिता तत पंचालाजस्तु तथा त्वरमानो भिदुद्राव तरमाणिद्रावहेन्द्र शंबरो महताशर वर्षेण पार्थ पांचालावृणोत तथो ततो हला, हला शब्द आसी पांचालाल के बल जिघक्षति महासिंह दृष्ट्वा पार्थं तदायान्तं सत्यजित् सत्यविक्रमः पाञ्चालं वै परिप्रेप्सिर्धनञ्जयमुपाद्रवत् ततत्स्वर्जुन पाञ्चालौ युद्धायसमुपागतौ व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव ततः सत्यजितं पार्थौ दशभिर्मभेदिभिः विव्याधबलवद्गाढं तदद्भुतमिवाभवत् ततः शरशतैः पार्थं पाञ्चालः पार्थस्तु शरवर्षेण छाद्यमानो महारथः वेगं चक्रे महावेगो धनुर्जामवमृज्य च ततः सत्यजितश्चापं छित्वा राजानमभ्ययात् अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् साश्वं ससूतं सरथं पार्थं विव्याधसत्वरः सतं नमु मृषे युधि ततस्तस्य विनाशार्थं सत्वरं व्यसृज्छरान् हयान् ध्वजं धनुर्मुष्टिमुभौ तौ पाष्णिसारथी स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः हयेषु विनियुक्तेषु विमुखो भवदाहवे स तथा विमुखमाहवे वेगेन महता राजन्नभ्यवर्षत पाण्डवं तदा चक्रे महद्युद्धमर्जुनो जयतां वरः तस्य पार्थो धनुच्छित्वा ध्वजं चोर्व्यामपातयत् पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः तत उत्सृज्य तच्चापमाददानं शरावरं खड्गमुद्धृत्य कौन्तेय सिंहनादमथाकरोत् पाञ्चालस्य रथस्येषामाप्लुत्य सहसा पतत् पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः विक्षोभ्याम्भोनिधिं पार्थस्थं नागमिव सोऽग्रहीत् ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश दर्शयन् सर्वसैन्यानां स बाह्वोर्बलमात्मनः सिंहनादस्वनं कृत्वा निर्जगामधनञ्जयः आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः